श्रीमद्भागवत् महापुराणं दशं स्कन्धः अथ तथा गोप्यो की बातचीत् और भ्रमर्गीत शेषो कुवाच तं व्यक्ष्य कृष्णानुचरं व्रजस्त्रिय प्रलम्बबाहुं नवकञ्चलोचनं पिताम्बरं पुष्करमालिनं सन्मुखारविन्दं मणिमृष्टकुण्डलम् स्मिता कोऽयमपि च दर्शन कुतश्च कस्याचित् वेषभूषणः इति स्म सर्वा परिवब्रुरुसुखाः तमोत्तमश्लोकपदाम्बुजाश्रयम् तम् प्रश्रयेणावनता सुसत्कृतं थबीडहासे क्षणसूनितादिभिः दस्य पृच्छन्नुपवेष्टमासने विज्ञाय सन्देशहरं रमापते जानीमस्त्वां यदुपतेः पार्षदं समुपागतं भर्द्रेह प्रेषित पित्रोर्भवान् प्रियचिकीर्षयाम् अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे देहानुबन्धो बन्धूनां मुनेरपि सुदुश्चयः अन्वेष्यर्थ कृता मैत्री यावदर्थ विटम्बनम् पुम्भिे स्त्री सुकृता यद्वन्सुमनस्वीव षट्पदैः निःस्वम् त्यजन्ति गणिका अकल्पं नृपतिम् प्रजा अधीतविद्या आचार्य मृत्युजो दत्त दक्षिणम् खगावितफलम् रक्षम् भुक्त्वा चातिथयो गृहम् दग्धम् मृगात् तथा जारो भुक्त्वा रतांशियम् इति गोप्यो हि गोविन्दे गतवाक् कृष्ण दूते व्रजम् जाते उद्धवे त्यक्त्रलौकिकाः गायन्त प्रियकर्माणि रुदन्त्यश्च गताशियः तस्य संस्मृत्य संस्मृत्य यानि को कैसूरबाल्ययोः काञ्चीम् मधुकरम् प्रियप्रस्थापितम् दूतं कल्पविद्वेदमब्रवीत् गोप्युवाच मधुपकृतबन्धो मां स्विसाङ्घिं सपत्न्याः कुचविलोलितमालाङ्कुकुम् कुङ्कुम श्मस्रोर्भिर्णः वहतु मधुपतेतन्मालिनीनाम् प्रसादम् यदु सदसि विडम्ब्यं यस्य दूतत्वमेधिक सकृतिधरसुधां सां मोहिनीं पाययित्वा तु मनसैवं सद्यस्तत्त्येजेष्मान्भवासि करिचरति कथं तत्पादपद्मं तु पद्मां यपिबसित चेता उत्तमश्लोकजल्पै किमिह बहूषणङ्घ्रे गायसि त्वं यदूनाम् अधिपतिमगृहाणाम् अग्रतो न पुराणम् विजयसखमसी सखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्ते शमिष्ठाः दिवि भुवि च रसायां कास्यस्तद्दुरापाः कपटरुचिरहास भ्रूवृजम्भस्य जास्युः चरणरजुपास्ते यस्य भूतिर्वयं का अपि च वृषिज शिरसि पादम् वेद्म्यहम् चाटुकारै अनुनै विदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् स्वकृत इह विशिष्टा पत्यपत्यन्यलोकाम् वृषिजङ्कृतचेता किं नु सन्धेयमस्मिन् मृगीर्युकपिन्द्रम् दिव्यथे लब्धधर्वा यमकृताम् विरूपां तु कामयानाम् बलिमपि बलिमत्वापेषयध्वाक्षमज तदलमसीतसख्यै दुः सजनस्तन्तम् यथार्थ यदनुचरितलीलाकर्णपेयूष विप्रुट सकितनविधूत द्वन्द्वधर्मा विनष्टाः तपति गृहकुटुम्बम् दीनमुसृज्य दीना भव एव निहं विहङ्गां भिक्षुरचर्यां चरन्ति वयमृतमिव जिह्वा व्याहृतं सद्धानाः कुलीं करितमिवाज्ञा कृष्णबद्धो हरिण्यः दशसूरसकृते कृते दत्तन्न खन् परशुशिभ्र समरुजन्दुपं मन्त्रिण भन्यतामन्यवार्ता प्रियसखम् पुनरागाप्रेषा प्रेषितः किं वर किमनुरुदन्धे मालनी योऽषि मेङ्ग नयसि कतिमिहास्मान्दुस्तजद्वन्द्वपार्श्वम् सतत् मुरसि सौम्य श्रीवधूषाकमास्ते अपि बत मधुपुर्यां मार्यपुत्रोऽधुनास्ते स पितृगेहान् सौम्य बन्धुश्च क्वचिदपि स कथा न किङ्करेणाम् गृहीते भुजमगुरु सुगन्धम् मूर्धन्यधास्यदकदा नु शेषोकुवाच अथोद्धवो निशम्यैवम् कृष्णदर्शनलालशाः सान्त्वम् प्रियसन्देशैर्गोपीतम् भाषत उद्धौ उवाच अहो योऽयम् स्म पूर्णार्थ भवत्यो लोकपूजिताः दासुदेवे भगवतीयासामिद्यार्पितं मनः दानव्रत तपोहोम जप स्वाध्याय संयमै तेयोभिर्विविधैश्चान्यै कृष्टे भक्तेः भक्ते साध्यते भगवत्युत्तमश्लोके भवती भीरनुत्तमा भक्तिप्रवर्तिता दिश्याम्नि नामपि दृष्टापुत्रान् प्रतिन्देहान् सजानान् भगवानपि भवनानि च हित्वा मिलीत यूयम् यत् कृष्णाख्यम् पुरुषम् परम् नाम भवतीनामथोक्षदे विरहेण महाभागा महान् मेऽनुग्रहकृतः श्रूयताम् प्रियसन्देशो भवतीनाम् सुकामः यमादायागतो भद्रा अहं भरतो रहस्कर श्रीभगवानुवाच भवतीनां वियोगो मे न हि सर्वात्मना पदे यथा भूतानुभूते शोकम् वा निर्जलम् महि तथाहं च मनः प्रारभूतेन्द्रियगुणाश्रय आत्मन्येवात्मनात्मानं तृजय्यनुपालवेम् आत्ममायानुभावेन भूतेन्द्रिय गुणात्मना आत्माज्ञानमयः शुद्धो व्यतिरिक्तो गुणान्मयः सुशब्दे स्वप्नजागद्भिर्नाया वृद्धिभिरीयते <laughs> येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः तन्निरुद्ध्यान्दिन्द्रियाणि विनिन्द्र प्रत्यपद्यत एतदन्तसमाम्नायो योगसङ्ख्यं मनीषिणां त्यागस्तपोदमसत्यं समुद्रान्तायुवापगाः